मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं त्रि गणेशस्वरूपवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच अधुना शृणुदक्षत्वं पूर्णशान्तिप्रदायकं चरितं गणनाथस्य नानायोगेश्वरस्य यद अयोगो माययाहीनः निमग्नश्च ब्रह्मसुखे तिष्ठनित्यं विशेषतः स्वानन्ताख्यं परं ब्रह्म नष्टं गणेशयोगदः पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा एवं पुनः प्रनष्टं तत्कालेन बहुना विधे पुनः पुनर्नष्टं कल्पा एवं गदा बहुः नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः विचारमकरो चित्ते दृष्ट्वा स्वानन्दजं भ्रमम् अहो मायाप्रभावेण ब्रह्मस्वानन्दधारकं ना नानाभावयुगं भूत्वा पुनर्भवदि नश्यदि मायाविहीनभावेनाहं सदा मोहवर्जितः अखण्डयोगसंयुक्तो तिष्ठं ब्रह्मपरायणः अविनाशिपदं दत्तं मह्यं केन महात्मना न ब्रह्म नाशसंयुक्तमविनाशिन विद्यते दक्ष उवाच अविनाशि समाख्यादं देहिरूपं पुरात्वया स्वद स्वद उद्धानकेनैव सृष्टं तदेव स्वसंवेद्यात् परं ब्रह्मा योगरूपं प्रकीर्तितं तदेव केन योगीश विनाशि कथ्यदे त्वया मुद्गल उवाच नाशानाशादिभेदाश्च स्वानन्दात्सम्भवन्ति च भेदाभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् शिष्यस्य बोधदानार्थं योगिनस्तं वदन्ति च कथितुं नैव शक्यत्वात् किञ्चिद्भेदं प्रजापदे अयोगमविनाशाख्यं कथयाम्यधुना परं नाशरूपं स्वसंवेद्यं बोधार्थं नात्र संशयः अयोगचिन्तयाविष्ठो बभूवे बन्धहानदः निवृत्तिजं सुखं तुच्छं मानयामास चेदसा सदा मायावीहीनत्वं ममास्त्यत्र न संशयः मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते विचार्य खेदसं योगमार्ग परोभवद अयोगो अयो गो हृदि सञ्चिन्त्य दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः दर्शयामास मन्त्रं स एकाक्षरं स्वकीयकं दृष्ट्वा योगो जजापादिकर्षितो मन्त्रमुत्तमं ध्यात्वा मन्त्रस्वरूपस्थं गणेशं शान्तिदायकं ततः रूपं गणपते शुभम् ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः तदोदी विस्मितो भूत्वा विचारमकरोत्हृदि कोऽयं गजाननो देवस्त्रीभ्यां संशोभदे हृदि गणेशकृपया ज्ञानं बभूव तस्य शाश्वतं तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्ठिदम् तदो दिहर्षितो भूत्वा ज्ञात्वा देवं गजाननम् मन्द्रम् जाप योगज्ञः शान्तिप्राप्त्यर्थमादराद् स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः वरदो भक्तवात्सल्यान् महाभक्तस्य भोविधे दक्ष उवाच आश्चर्यं विप्रवदसि ज्ञायधेन मया परं रहस्यं तेद्यवाक्यस्य योगग्रथितकस्य च अष्टविनायका प्रोक्तास्ते सर्वे गजवक्त्रिणः यगदन्तादिचिह्नैश्च संयुक्ता गणका किल गणेशानम भजदे ना तृद्धेशन प्रकटो जायते यदा तदास्मता भूत न जानी गजानना प्राज्ञा गजाननम कथम मुनेरह जानी कथम प्रभो यकाक्षरस्य भावेन संस्थिता नित्यमञ्चसा तथा संयोगरूपस्थो गणेशो गणनायकं मन्त्रयुक्तं न जानाति मन्त्राकृतिधरकथम् अयो गणनाथोऽयं गजाननाकृतिं धरन् समन्त्रो मन्त्रयुक्तं तं न कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः यं न जानन्ति विघ्नेशास्तदा कृतिधरा अपि संयोगे गणनाथोऽपि सिद्धिबुद्धिसमन्वितः अयोगे सिद्धिबुद्धिभ्यां हीन एव सवर्ण्यते पूर्णयोगे गणेशानसंयोगा योगवर्जितः मायाभ्यां संयुधप्रोक्तकथं वदरहस्यकम् मुद्गल उवाच सम्यक् पृष्टं त्वया दक्षरहस्यं परमाद्भुतं योगिनां सुखदं पूर्णं शान्दितं भाविदात्मनां एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् अन्यथा भविष्यसि निरन्तरम् यथा विश्वमिदं नित्यं ब्रह्मकारं प्रवर्तते तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितं नामरूपविहीनत्वान्मन्द्रस्तस्य न विद्यते तपसायुक्तभावेन प्रणवं पश्यति प्रभुम् सर्वाकारमहाबीजं प्रणवाकृतिरूपिणं दृष्ट्वा विस्मयभावेन विचारमकरोत्कृदि तपसा योगभावेन चतुष्पादं जगन्मयं जानाति कृपया तस्य मन्त्रराजं जगद्यथा ततो योगप्रभावेण प्रणवार्थस्वरूपिणं देवं सर्वार्थभावस्तं पश्यति विश्वमञ्चसा दृष्ट्वादिविस्मितभूत्वा विचारयदि चेतसि तपसा योगभावेन तं जानाति महाप्रभुम् ततो योगप्रभावेण शान्धिस्थं गणनायकम् पश्यदि वक्रतुण्डाख्यम् ब्रह्मस्वानन्दगम् परम् प्रणवोदयरूपश्चेत् प्रणवार्थो गजाकृतिः शिरस्तयोश्च संयोगे गणेशो योगरूपधृक ततो योगप्रभावेण शान्धिस्थं गणनायकम् पश्यदि वक्रतुण्डाख्यं ब्रह्मस्वानन्दकम् परं प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः शिरस्तयोश्च संयोगे गणेशो योगरूपधृकयोगाकारं महद्रूपं दृष्ट्वा विस्मितमानसं विश्वं भक्तिसमायुक्तं भजनार्थं मनोदधे यदादृशं ब्रह्मदेहधरं कथं भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः गजाननो बभूवापि पुनर्दृष्ट्वादिविस्मितम् तम्बस्यदि प्रजानाथ कोऽयं भिन्नस्वरूपधृकतस्तस्थं तस्य जानाति कृपया योगसेवया गणेशानां मूर्तिधरं भजदे नन्यभावतः मन्त्रादिना रहस्यन न जानीहि विश्वमादरात् तथा गणेश्वरः प्रोक्ता अष्टयोगप्रवाचकाः तेषां हृदि स्थितं ब्रह्मस्वसंवेद्यं न संशयः महैश्वर्यप्रसं युक्तां न कदाचन वयं ब्रह्मस्वरूपाश्च प्रत्येकं न मत्तः परमं किञ्चित् ज्ञात्वा मोखसमन्विताः विश्वात्मनिज विश्वस्मिन् क्रीडायुक्ता बभूविरे कृत्वा नानाविधं केलं नाना एवं बहौ गते काले शान्तिमिच्छन्ति शाश्वतीं तत् क्रीडाम्बिहायैव स्वमहिम् न्यभवन् तथापि ते पुनर्विश्वप्रवशासससृजुस्वयं तदस्ते खेदसंयुक्ता विचारं कुर्वदे परं केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् अधः स्वाधीनदा नो न विद्यतेऽपि कदाचन वयं न ब्रह्मरूपाश्च मायामोहयुधाः सदा एवं मनसि सन्धार्य तपस्चेरु तपश्चेरुत्समाधितं तपसा योगसंयुक्त बभूवुर्नात्र संशयः क्रमेण गणपा सर्वे पूर्णयोगस्वरूपिणि लयं ययुः सुशान्धिस्ता शान्तरूपे प्रजापदे तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकं योगोष्टधा समाख्यादस्तत्स्वरूपं सुयोगदम् शमोदम आसनं च प्राणायामश्चतुर्धकः प्रत्याहारो धारणा वैध्यानं समाधिरष्टमः स्वधर्मयुक्तभावेन मनोनियम्य यत्नदः यददे ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः स्वधर्मस्थितिमस्ताय नियमादिस्वभावदः दमे दे देहं सुशान्त्यर्थं दमस्तेन प्रपथ्यते स्वस्ति कादीनि भो आसनानि विशेषदः साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतं प्राणायामं तदोऽभ्यस्य जह्वाधिकं क्रमेण च योगार्थं साधये द्वायं प्राणायाम उच्यते नाविषयभोगार्थं गच्छन्तीन्द्रियकाणि तु तेभ्यस्तानि तमागृह्ययोगयुक्तानि कारयेत् स मनांसि सुशान्त्यर्थं कृत्वा कृत्वा पुनः पुनः इन्द्रियाणि नरकुर्यात् प्रत्याहारः स वै स्मृतः महावाक्यादिभिः प्रोक्तं ब्रह्मशब्दार्थभागतः सन्धार्य सश्रमदक्ष धारणा प्रकीर्तिता हृदि ब्रह्मावबोधश्च जायते ऐक्यभावदः स्वस्वतेन समाख्यातं ध्यानं ब्रह्मसुखप्रदं ततो ब्रह्मणि सोऽप्येवं लीन संज्ञायते परे न ब्रह्म नः स्वयं तत्र समाधिपरिकीर्तितः इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादराद सेविनां ब्रह्मदं पूर्णं भविष्यदि न संशयः तत्र मायायुधा जीवा भिन्नदेहधरा मदः येषामष्टकमेव तद्वर्तते साधनात्मकम् ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु विश्वरूपाणि सर्वाणि ब्रह्माण्यन्यमुखानि च तेषां योगसमाख्यातस्त्रिविधो नात्रसंशयः देहादिभावशून्यत्वात्ततृणुष्वसुखप्रदं धारणाध्यानके दक्षसमाधिपरिगीर्तितः त्रिभिर्योगं समाराध्य शान्तिगानि भवन्दितु स्वस्वब्रह्मणि ये सन्ति भोगा ब्रह्मसुखात्मकाः तां त्यक्त्वा धारयद्ब्रह्म तपस्तदेव कथ्यते पूर्णशान्त्यर्थमत्यन्तं ब्रह्माणि सम्भवन्ति चेद् त्यक्त्वा भोगास्तपस्तेषां ज्ञातव्यं विभूतैः परं मनोवाणीविहीनं न मनोवाणीमयं न च ब्रह्म वेदेषु विख्यातं तदेव गणनायकः नतत्र तत्र सगुणं दक्षनिर्गुणं नैव वर्तते गणेश पश्य वेदेषु योग उपस्तदस्मृतः ब्रह्माणि खेदयुक्तानि पराधीनतया यदा तपश्चेरुस्तदा तानि विचार्य ब्रह्मप्राप्तये अदी तपो बलेनैव हृदि स्फूर्ति प्रजायते योगस्य मन्त्रराजं तं जानीहि ब्रह्मणां विधे तदो हर्षयुधान्येवानुभवं सस्मरुस्तदा जपस्तदेव दशां वै भवदिप्रभो हृदि संस्तं ततो योगं ददृश्युस्तानि सर्वदा तदेव गणराज्यस्य रूपं तत्र प्रकीर्तितं ततस्थलीनभावेन तिष्ठन्ति ब्रह्मकानि वै गणेशस्य कृपाज्ञेया तत्र सा कथ्यते बुधैः योग ब्रह्म यदि देहयुतं भवेद तदार्थं प्रभजिष्यामो नित्यमिच्छन्ति तानि तु ब्रह्मदेहधरसोऽपि बभूवभक्तिमोहितः आययौ वरदानार्थं तेषामग्रे गजाननः ब्रह्माकाराणि चिह्नानि कथितानि पुरामय गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशं ततस्तानि प्रणयमुस्तं पुपूजुस्तं च नित्यशः अन्दे योगमयान्येव बभूवुर्नात्र संशयः यदत्सर्वं समाख्यातं ब्रह्मणां चरितं मया तपो योगाधिकाचारमन्यच्छृणु प्रजापदे वक्रतुण्डो गणेशानो यदि खेदसमन्वितः पराधीनतया दक्ष शान्तियोगपरोऽभवद तदा तपो युधस्सोपित्रेधा योगार्थमादराद श्राम्ये तेन हृदित्तं तं लोकयेदेकदन्तकं देहेषु ब्रह्मभावेन वक्रतुण्डस्थितोऽभवद तस्माद्देही स्थितश्रेष्ठो भिनाकारप्रकीर्तितः अतोऽयं वक्रतुण्डस्थं गजाननं परात्परम् एकदन्तं न जानाति तत्र भेदं वदाम्यहं त्रिगुणाकारदेहश्च तुरीयम् मस्तकं मदं वक्रतुण्डस्तयोर्योगे बिन्दुब्रह्म प्रवाचकः चतुर्विधेषु देहेषु मोहयुक्तम् च यत्स्मृतं सदा भेदविहीनं तज्जीवसञ्ज्ञम् प्रकथ्यते मोहीनं सदा साक्षिरूपं परात्मधारकं यगदन्तस्तयोर्योगे सोऽहम् मात्रात्मकः जीवो देहस्वरूपस्थपरमात्मा शिरस्मृतं गजाकारं न सन्देह एकदन्तस्य नित्यशा जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ विस्मितः स भवेत्तत्र वक्रतुण्डो गजाननः नानाभेदसमायुक्तो वक्रतुण्डो मयोदिदं भेदहीनमेकदन्तं दृष्ट्वा पप्रच्छतं पुनः हृदिस्तं सोऽहमादौ यत् ब्रह्माकारं प्रकथ्यदे बिन्दोस्तदेकदन्दाख्यं न देहादियुदं कदा सेवार्थं वक्रतुण्डे न प्रार्थितं हृदि सङ्गदं ब्रह्म तदे बभो दक्ष जगदन्तो बभूवः यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितं तथा ज्ञेयं वक्रतुण्डो विह्येकदन्तस्वरूपदृक सगुणं नरसं न्यस्थं निर्गुणं गजवाचकं तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते सेवार्थं प्रार्थितं सर्वैस्तदेव देहवानभूतगणेशो ब्रह्मरूपाख्यो नानाब्रह्म अतो गणेश्वरं दक्ष न जानातिगणेश्वरः सुशान्दिदं स्वत उद्धानभावेदु देहो बिन्दुमयः स्मृतः सोऽहं शिरोगजाकारं तयोर्योगे महोदरः एवं नानाविभेदैश्च नानाब्रह्मपरायणः गणेश्वरस्थिदस्तेषु गजाननादिचिह्निदः संयोगे गणनाथस्य स्वद उद्धानकं वपुः उत्थानं पर मस्तकं नात्र संशयः अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितं वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः पूर्णयोगे शरीरं तु मतं संयोगवाचकम् अयोगवाचकं तस्य मस्तकं तु गजाकृति अविनाशार्थसंयुक्तो गजशब्दप्रकीर्तितः अयोगान्न परं ब्रह्म विनाशाख्यं प्रकथ्यते संयोगायोगभावाख्या भ्रान्ति सर्वत्र पठ्यते निजोथचित्ताग्रदक्षसा सिद्धिपरिकीर्तिता संयोगायोगभावस्था बुद्धिर्भ्रान्तिधरा मदा तयो स्वामी गणाध्यक्षपूर्णयोगप्रवाचकः अहं गणशरूपश्चेत् संयोगायोगकौ मम मा। कुतो मायाप्रभावाच्यौ तेन शान्तिं लभेन्नरः सर्वत्र भेदभावेन संयोगात्मा गजाननः तिष्ठत्यत्र न सन्देहो युद्धः सर्वत्राभेदहीनश्च योगरूपो गजाननः अयोगमायया युक्तस्तिष्ठदिव्यधिरेकदः यदि सर्वात्मकं योगं वदामि गणनायकं नानाब्रह्म सुसंस्थं समन्वयाच्यं तदा विदुः नागदं न ना योगं कदाचिच्यद्गजाननं नानाब्रह्मसुमुक्तन्तं व्यतिरेकात्मकं जगुः अधश्चित्तलयेनैवाहं गणेशो न संशयः चित्तपञ्चकमुत्सृज्य पूर्णयोगमवाप्नुयाद तत्र समाधिजं सौख्यं वदामि युक्तिभावदः गणेशेकं तदाकारो भवामि यदि योगतः तदा संयोग च प्रोक्तोऽनुभवो योगिनां हृदि यदा सं गणनाथश्चेन्नागदो न गदः कदा तदा ह्ययोगशः योगमयो योगः कथं तत्र प्रवर्तते चित्तं नानाविधं दक्ष संयोगयोगधारकं योगे योगात्मकोकं च तदा शान्तिप्रलभ्यते शान्तिनां शान्तिरूपा सा योगशान्तिप्रजापदे तस्मात् परं विद्यते न ब्रह्मयोगात् सुनिश्चितम् अतोऽयं गणनाधस्तु ब्रह्मणस्पतिरुच्यते संयोगायोगकालीनां ब्रह्मणां पादुर्भावतः यदत्सर्वं समाख्यातं रहस्यं परमाद्भुतं गजाननस्य ते दक्षप्रकृतं शृणु साम्प्रतं ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवे योगचरित्रे योगचर गणेशवर्णन नाम तृतीय ओम